अथ तृतीयः सर्गः अथोवाच पुनर्वाक्यम् विराधः पूरयन् पृच्छतो मम हिब्रूतम् कौयुवान् त्वगमिष्यथः तमुवाच ततो रामो राक्षसम् ज्वलिताननम् पृच्छन्तम् सुमहातेजा इक्ष्वाकुकुलमात्मनः क्षत्रियौ वृत्तसम्पन्नौ विद्धिनौ वनगोचरौ म् तु वेदितुमिच्छावः कस्त्वम् चरसि दण्डकान् तमुवाच विराधस्तु रामं सत्यपराक्रमम् हन्त वक्ष्यामि ते राजन् निबोधम राघवा पुत्रः किल माता मम शतह्रदा विराध इति मामाहुः पृथिव्याम् सर्वराक्षसाः तपसा चाभि सम्प्राप्ता ब्रह्मणो शस्त्रेध्यता लोकेेद्या भेद उत्सृज्य प्रमदा मेना मनपेक्ष ये थावाजी आददे तम रा प्रत्युवाचेद कोपसंक्तोचन राक्षसंकताधं पापचेतस क्षुद्रधिक्त्वाम् तु हीनार्थम् मृत्युमन्वेषसे ध्रुवम् रणे प्राप्स्यसि सन्तिष्ठन मे जीवन् विमोक्ष्यसे ततः सज्यम् धनुः कृत्वा रामः सुशीघ्रमभिसन्धाय राक्षसन्निजघानः धनुषाज्या गुणवता सप्तबाणान् मुमोचः ते शरीरं विराधस्य भित्वा बर्हिणवाससः निपेतुः शोणिता दिग्धा धरण्याम् पावकोपमाः स विद्धोऽन्यस्य वैदेहीम् शूलमुद्यम्य राक्षसः अभ्यद्रवत्सु सङ्क्रुद्धस्तदा रामम् स लक्ष्मणम् स विनद्यमहानादम् शूलम् शक्रध्वजोपमम् अथ तौ भ्रातरौ दीप्तम् शरवर्षम् ववर्षतुः विराधे राक्षसे तस्मिन् कालाम् तकयमोपमे सप्रहस्य महारौद्रस्थित्वा जृम्भतराक्षसः जृम्भमाणस्य ते बाणा कायाणिष्पेतुराशुगाः स्पर्शा त्ववरदानेन प्राणान् संरोध्य राक्षसः विराधः शूलमुद्यम्य राघवावभ्यधावता तच्छूलम् वज्रसङ्काशम् गगनेज्ज्वलनोपमम् द्वाभ्याम् शराभ्याम् चिच्छेद रामः शस्त्रभृताम्बरः तद्रामविशिखैश्चिन्नम् शूलम् तस्यापतद्भुवि पपाता शनिना छिन्नम् तौ खड्गौ क्षिप्रमुद्यम्य कृष्णसर्पा विबोद्यतौ तूर्णमापेततुस्तस्य तदा प्रहरताम् बलात् सबध्यमानः सुभृशम् भुजाभ्याम् परिगृह्यतौ अप्रकम्प्यौ नरव्याघ्रौ रौद्रः तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत् वह त्वयमलम् तावत्पथानेन यथा चेच्छति सौमित्रे तथा वहतु राक्षसः अयमेव हि नः येन याति निशाचरः स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः बालाविवस्कम् धगतौ चकारातिबलोद्धतः तावारोप्य ततस्कन्धम् राघवौ रजनीचरः विराधो विनदन्घोरम् जगामाभिमुखो वनम् वनम् महामेघनिभम् प्रविष्टो द्रुमैर्महद्भिर्विविधैरुपेतम् नानाविधैः पक्षिकुलैर्विचित्रम् शिवायुतम् यालमृगैर्विकीर्णम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अरण्यकाण्डे तृतीयः